स समालोक्यदूरान्मां स्मयन्निव युधिष्ठिर आह्वयामासदुष्टात्मा युद्धायैव मुहुर्मुहुः सस्यशार्ण्यविनिर्मुक्तेर्बहुभिर्मभेदिभिः पुरम् नासाद्यतचरेस्ततो मां रोष आविशतु स चापि पापप्रकृतिर्दयितेयापसदो नृपा मय्यवर्षतदुर्धर्षः शरधाराः अचिन्तयन्तस्तु सरान् वयं युध्यामभारत ततशतसहस्राणि शराणां नतपर्वणां चिक्षुपुःसमरे वीरा मयि साल्वपदानुगाः देहयांश्च रथं चैव तदा दारुकमेवचा च छादयामासुरसुरास्तैर्बाणैर्मभेदिभिः नहया न रथो वीर नयन्ता मम दारुकः अदृश्यन्तसरैच्छन्नास्तथाहम् सैनिकाश्च मे ततोऽहमपि ततो कौन्तेय शराणामयुतान् बहून् आमन्त्रितानाम् धनुषा दिव्येन विधिनाक्षिपम् नतत्र तत्र विषयस्त्वासीन्मम सैन्यस्य भारत खेवि हि तत्सोभम् क्रोशमात्र इवाभवत् ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः हर्षयामासुरुच्चैर्माम् मत्कराग्रविनिर्मुक्ता दानवानाम् सरास्तथा अङ्गेषु रुचिरापाङ्गा विवशुहु शलभा इव ततो हलहलाशप्तः सौभमध्ये व्यवर्धता बध्यताम् विसिखैस्तीक्ष्णैः पतताम् च महार्णवे ते निकृत्तभुजस्कन्धाः कबन्धाः कृतिदर्शनाः नदन्तो भैरवान्नादान् निपतन्ति स्म दानवाः भक्ष्यन्ते समुद्राम्भो तो गो क्षीरकुंदेन्दु मृणालजत प्रभं जलजं पांचज्यं वे प्राणेनाहमपूरय दृष्ट्वा पति शावती मयायुद्धे न महता योधयामासम युधि तहलासा शूलशक्तिपरश्वधसक्तिकुशा पाससषिकनपा सरा पट्टिशाच भुषुंड प्रपतंशी तामहं मायैवासु प्रतिगृह्य व्यनाशयम् तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ततो भवत्तम इव प्रकाश इव चाभवत् दुर्दिनं सुदिनं चैव सीतमुष्णञ्च भारत अङ्गारपांसुवर्षञ्च शस्त्रवर्षञ्च भारत एवं मायां प्रकुर्वाणो योधयामास मां रिपुः विज्ञाय तदहं सर्वं माययैव व्यनाशयम् यथाकालम् तु युद्धेन व्यधमं सर्वतः शरैः ततो व्योम महाराज शतसूर्यमिवा भवतु शतचन्द्रम् च कौन्तेय सहस्रायुततारकम् ततो नाज्ञायत तदा दिवारात्रम् तथा दिशः ततोऽहम् मोहमापन्नः प्रज्ञास्त्रम् समयोजयम् ततस्तदस्त्रम् कौन्तेय धूतम् तूलमिवानिलैः तथा तदभवद्युद्धम् तुमुलम् लोमहर्षणम् लब्धा कस्तु इति राजेन्द्र महाभारते शत्रुमोधयहाभारनपर्वि अर्जुनागमन पर्व सौभवधोपाख्याध्याय है